युद्धकाण्डं सर्गम् एय् श्रीमहादेव उवाच कुम्भकर्णवच श्रुत्वा भ्रुगुडीविकटाननः दशग्रीवो जगादेदमासनादुत्पदन्निव त्वमानीतो न मे ज्ञानबोधनाय मयाकृतं मया कृतं समीकृत्य युध्यस्व यदि रोचते नो चेद्गच्छ सुषुप्त्यर्थं निद्रात्वां बाधतेऽधुना रावणस्य वच कुम्भकर्णो महाबलः रुष्टोऽयमिति विज्ञाय तूर्णं युद्धाय निर्ययौ स लङ्घयित्वा प्राकारं महापर्वतसन्निभः निर्ययौ नगरात् तूर्णं भीषयन् हरिसैनिकान् सननादमहानादं समुद्रमभिनादयन् वानरान् पालयामास बाहुभ्यां भक्षयन् रुषा कुम्भकर्णं तदा दृष्ट्वा सपक्षमिव पर्वदं दुद्रुवौर्वानराः सर्वे कालान्तकमिवाखिलाः भ्रमन्दं हरिवाहिन्यां मुद्गरेण महाबलं पालयन्तं हरिन्वेगात् भक्षयन्तं समन्ददः चूर्णयन्तं मुद्गरेण पाणिपादैरनेकधा कुम्भकर्णं तदा दृष्ट्वा गदा न नाम चरणं तस्य भ्रातुर्ज्येष्ठस्य बुद्धिमान् विभीषणोऽहं भ्रातुर्मे दयाम् कुरु महामदे रावणस्तु मया भ्रातर् बहुधा परिबोधितः सीताम् देहीति रामाय रामः न शृणोदि च खड्गमुद्यम्य चोक्तवान् धिक्त्वां गच्छेदि मां हत्वा पदा पापिभिरावृतः चतुर्भिर्मन्त्रिभिः सार्धं रामं शरणमागतः तच्छ्रुत्वा कुम्भकर्णोऽपि ज्ञात्वा भ्रातरमागतम् समालिङ्ग्यजवत्सत्वं जीवरामपदाश्रयाद कुलसंरक्षणार्थाय राक्षसानां हिताय च महाभागवतोऽसि त्वं पुरा मे नारदाच्छुगं गच्छतादममेदानीं दृश्यते न च किञ्चन मदमत्तविलोचनः इत्युक्तोऽश्रुमुखो भ्रादुश्चरणावभिवन्द्यसः रामपार्श्वमुपागत्य चिन्ता पर उपस्थितः कुम्भकर्णोऽपि हस्ताभ्यां पादाभ्यां पेषयन् हरीन् चचारवानरीं सेनां कालयन् गन्धहस्ति दृष्ट्वा तं राघवक्रुद्धो वायव्यं शस्त्रमादराद चिक्षेपकुम्भकर्णाय तेन चिच्छेदरक्षसः समुद्गरं दक्षहस्तं तेन घोरं ननादसः सहस्तः भूमा वनेका नर्दयन् कपीन् पर्यन्तमाश्रिताः सर्वे वानरा भयवेपिताः रामराक्षसयोर्युद्धं पश्यन्तः पर्यवस्थिताः कुम्भकर्णश्चिन्नहस्तशालमुद्यम्य वेगदः समरे राघवं हन्तुं दुद्रावतमधोच्छिनद शालेन सहिदं वामहस्तमैन्द्रेण राघवः चिन्नबाहुमातायान्दं नर्दंदं वीक्ष्य राखवः निशिता द्वावर्धचन्द्रौ निशितावादायास्य पदद्वयं चिच्छेदपतितौ पादौ लङ्काद्वारि महास्वनौ पातोपी निकृत पाणी पादी कुंभकर्णो दिभीषण वड़वा मुखवद्रम व्याघुनंदनमुद्रवनिन राहुच्चंद्रम सायकै सायकूतम शरपूरीद वक्त्रोऽसौ चुक्रोशादिभयङ्करः अध सूर्यप्रदीकाशमहीन्द्रं शरमनुत्तमम् वज्राशनि समं रामश्चिक्षेपासुरमृत्यवे स तत्पर्वतसाशं स्फुरत्कुण्डलदंष्ट्रकम् चकर्तरक्षोऽधिपदे शिरो वृत्रमिवा शनिः तच्चिरःपदिदं लङ्गाद्वारि कायो महोदधौ शिरोस्य रोधयद्वारं कायोनक्राद्यचूर्णयद तदो देवाः सर्षयो गन्धर्वाः पन्नगाखगाः सिद्धा यक्षा गुह्यकाश्च अप्सरोभिश्चराघवम् ईडिरे कुसुमासारैर्वर्षन्तश्चाभिनन्दिताः आ जगामतदारामं देवमुनीश्वरः नारदो गगनात्तूर्णं स्वभासा भासयन् राममिन्दीवरश्याममुदाराङ्गं धनुर्धरं ईषत्ताम्रविशालाक्षमैन्द्रास्त्राञ्जिदबाहुकम् दयार्द्रदृष्ट्या पश्यन्दं वानराञ्छरपीडितान् दृष्ट्वा गद्गदया वाचा भक्त्या स्तोदुम्प्रचक्रमे नारद उवाच देवदेवजगन्नाथ परमात्मन् सनातननारायणाखिलद्धार विश्वसाक्षिन्नमोऽस्तु ते विशुद्धज्ञानरूपोऽपि त्वं लोकानदि वञ्चयन् मायया मनुजाकार सुखदुःखादि मानिवा। त्वं मायया गुह्यमानः सर्वेषां हृदि संस्थितः स्वयं व्यक्त एवामलात्मनाम् उन्मीलयन् सृजस्येदन्नेत्रे राम जगत्त्रयम् उपसंह्रियदे सर्वं त्वया चक्षुर्निमीलनात् यस्मिन् सर्वमिदम्भादि यतश्चैतच्चराचरं यस्मान्न किञ्चित् लोकेऽस्मिंस्तस्मै ते ब्रह्मणे नमः प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणं यं जानदिमुनिश्रेष्ठास्तस्मै रामायते नमः विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ त्वां सर्वजगदाकारमूर्तिं चाप्याः सा विरोधो दृश्यदे देव वैदिको वेदवादिनां निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः मायया क्रीडतो देव न विरोधो मनागपि रश्मिजालं रवेर्यद्वद्दृश्यते जलवद्भ्रमाद् भ्रान्तिज्ञानात्तधारामत्वयि सर्वं प्रकल्प्यते मनसो विषयो देवरूपं ते दे निर्गुणं परं कथं दृश्यं भवेद्देव दृश्याभावे भजेत्कथम् अधस् वावतारेषु रूपाणि निपुणा भुवि भजन्ति बुद्धिसम्पन्नास्तरन्त्येव भवार्णवं कामक्रोधादयस्तत्र बहवः परिपन्थिनः भीषयन्ति सदा चेदो मार्जारा मूषकन्त्यथा त्वन्नामस्मरदां नित्यम् त्वद्रूपमपि मानसे त्वत्पूजा निरतानां ते कथामृतपरात्मनां त्वद्भक्तत्सङ्गिनां राम संसारो गोष्पदायते अधस्ते सगुणं रूपं ध्यात्वाहं सर्वदा हृदि मुक्तश्चरामि लोकेषु पूज्योऽहम् सर्वदैवतैः रामत्वया महत्कार्यम् कृतं कुम्भकर्ण कुम्भकर्णवधेनाद्य भूभारोयं गधप्रभो श्वोहनिष्यदि सौमित्रिरिन्द्रजेतारमाघवे रामत्वं परश्वो दशकंधरं पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः भोगतः अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम् इत्युक्त्वा राममामन्त्र्य नारदो भगवान् ऋषिः ययौ देवैः पूज्यमानो ब्रह्मलोकमकल्मषं भ्रातरं निगतं श्रुत्वा कुम्भकर्णं महाबलं संदप्तो रावणशोकसन्दप्तो रामेणाक्लिष्टकर्मणा मूर्च्छिधपदिदो भूमा बुद्धाय विललापः पितृव्यं निषदम् श्रुत्वा पितरं चादिविह्वलम् इन्द्रजिप्राहशोकार्तं त्यजशोकम् महामदे व्येतु दुःखमखिलम् स्वस्तो भवमहीपदे सर्वं समीकरिष्यामि घनिष्यामि च वैरिपून् गत्वा निकुम्भिलां सद्यस्तर्पयित्वा लब्ध्वा रथादिकं तस्मादजे योगं भवाम्यरेः इत्युत्युक्त्वा गत्वा निर्दिष्टं हवनस्थलं रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः निकुम्भिलास्थले मौनी हवनायोपचक्रमे विभीषणतछ्रुवा मेखनाद से चेष्टिद प्राहराम सकलं होम आरंभम दुरात्म सेद्धोमों मेघनाद दुर्मदेहे तदा जे भवेद्राम मेखनादसुरासुर अद शीघ्रम खादयिष्यामि रावणिम् आज्ञापयमया सार्धं लक्ष्मणं बलिनां वरं हनिष्यदिनसन्देहो मेघनादं तवानुजः श्रीरामचन्द्र उवाच अहमेवागमिष्यामि हन्तुमिन्द्रजिदं रिपुम् आग्नेयेन महास्त्रेण सर्वराक्षसखादिना विभीषणोऽपि तं प्राह न समन्यैर्निहन्यते यस्तु द्वादशवर्षाणि निद्राहारविवर्जितः तेनैव मृत्युर्निर्दिष्टो ब्रह्मणास्य दुरात्मनः लक्ष्मणस्तु अयोज्याया निर्गम्या या तदादि तदादिनिद्राहारादीन्नजानादिरघोत्तमसेवार्थं तव राजेन्द्रज्ञादं सर्वमिदं मया तदा ज्ञापय देवेश लक्ष्मणं त्वरया मया हनिष्यदिनसन्देहशेष साक्षाद्धराद्धरव क्षाजगदाधीशो नारायणो लक्ष्मण शुवा धराभार निवार जादौ जगन्नाटकसूत्रधारौ यीमद्यात्मणे उमहर संवाद युद्धकांडे अष्ट सर्ग Om um.